हरि ओम् श्रीयतिता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकिरामायण युद्धकाण्डे एकोन सर्गः विभीषणस्य रक्षसु तेन वानरय उत्सवानां प्रोत्साहनम् लक्ष्मणेन इन्द्रजितधौ वानरे तदीयानां पश्वानां विनिपातनम् युध्यमानः ततो प्रसक्तो नरराक्षसौ प्रभिन्नौ एव मातङ्गौ परस्पर जयैषिणौ तयोर्युद्धं द्रष्टुकामौ वरचाप धली शूरस् श्रवणभ्राता तस्थो संग्राममूर्धने ततो विस्फारयामास महधनु अवस्थितः उत्सज च तेष्णाग्राम् राक्षसेषु महाशरान् ते शराशिखि संस्पर्शा निपतन्त समाहितः राक्षसान्द्रावयामासु वज्राणि महागिरिन् विभीषणस्यानुचरा ते पेषु लासि पट्टिशई चिच्छिदु समदे वीरान् राक्षसान्द्राक्षसोत्तमः परिवृतः तु विभीषणः दा, बभो मध्ये प्रधुष्टानां कलभानांपः ततस्तञ्चोदमानोः वै हरिन्द्रक्षो वधप्रियाम् उवाच वचनं काले कालज्ञो रक्षसांवरः एकोऽयं राक्षसेन्द्रस्य प्रायणमवस्थितः एतत् बलं तस्य किं तिष्ठत हरीश्वरः अस्मिन् निहते पापे राक्षसे रणमूर्धने रावणं वर्धयित्वा तु शेषमस्य बलं हतं प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः जम्बमाली महामाली तीक्ष्णवे घोषनिप्रभ सुप्तघ्नो यज्ञकोपश्च वज्रधंष्टः च राक्षसः संह्रादि विकटोरिघ्न तपनो मन्दैव च प्रगाश प्रगश चैव प्रजङ्घो जङ्घैव च अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यम् विद्युज्जीवो द्विजिहश्च सूर्यशत्रुश्च राक्षसः एकम्पनस्त पार्श्वे चक्रमाली च राक्षसः कम्पनः सत्त्वबन्तो तौ देवान्क नरान्तकौ एतान्यस्यातिबलान् बहून् राक्षसप्तमान् बाहुभ्याम् सागरं तीर्त्वा लङ्घ्यताङ्गोचपदं लघु एतावदेव शेषम्भो जेतव्यम् इति सर्वे समागम्य राक्षसा बलदर्पितः अयुक्तम् निधनम् कर्तुम् पुत्रस्य जनितुर्मम गृणाम् अपास्य रामार्थे निहन्याम् मे बाष्पम् चक्षुश्चैव निरुध्यति मेवैष महाबाहु लक्ष्मणः शमयिष्यति वानरा घ्नत सम्भूय भृत्यानस्य समीपग इति तेनापि यशसा राक्षसेनापि चोदिताः वानरेन्द्रः झरुशिरे प्राङ्गुलानि च विव्यधु ततस्तु कपिशाः क्रीडन्तश्च पुन पुनः ममुचुर्विविधानान् मेघान् दृष्ट्वैव बर्हिणः जाम्बवानपि ते तेश्मन सर्वै स्वयूथ्यैताडयामासु न खै दन्तैश्च राक्षसान् निघ्नन्तं वृक्षाधिपतिं राक्षसा ते महाबलः परिव्रुर्भयं त्यक्त्वा तम्नेक विधायुधा शरी परशुभिषेखनै पट्टिशैर्यितो मरे जाम्बवन्तं मृधे जघ्नो निघ्नन्तं राक्षसिं चमम् सम्प्रार तु मरः सज्जन्ये कपि रक्षसां यथा भीमो महासुनः हनुमानपि सङ्क्रुद्ध शालम् उत्पाट्य पर्वतात् स लक्ष्मणम् स्वयं पृष्ठात् अवरोप्य महामनः रक्षसां कदनं चक्रे दुरासादसृज स दत्त्वा तुमलम् युद्धम् पितृव्यस्येन्द्रजित् बली लक्ष्मणम् परभिरघ्न पुनरैवाभ्यधावत् तौ प्रयुद्धौ तदा वीरो मृधे लक्ष्मणराक्षसौ शरोघ न भिवर्चन्तौ जघ्नतु स्तौ परस्परम् अभिक्षणम् अन्तर्दधू ददतु शरजाले महाबलौ चन्द्रादित्या विवोष्णान्ते यथा मेघैतरस्मिनौ न ह्यादानम् न वा परिग्रह न विप्रमोक्षो बाणानाम् न विकर्षो न विग्रह न मुष्टिपतिसन्धानम् न लक्ष्य प्रतिपादनम् अदृक्षत तयो तत्र युद्धतोपाणिलाघवात् चापवेग प्रयुक्ते च बाणजालये समन्ततः अन्तरिक्षेऽभि सम्पन्ने न रूपाणि पृच्छकाशिरे लक्ष्मणो रावणीम् प्राप्य रावणेश्चापि लक्ष्मणम् अव्यवस्था भवत्युग्रा ताभ्याम् अन्योन्यविग्रहे ताभ्यामुभाभ्याम् तरतः प्रष्टुतै विशिखैषितै निरन्तरमिवाकाशम् बभूव तमसा वृतम् तैः पतद्भिश्च बहुभिः तयोशरशतैषितै दिश च प्रदिश चैव बभूवो शरसङ्कुलः तमसा विहितम् सर्वम् आसीत् प्रतिभयम् महत् अस्त गते सहस्रांशो संवृते तमसा च वै रुधिरोहा मानव्य प्रावर्तन्त सहस्रश क्रव्यादादारुणा वाग्भिः शिक्षे पूर्भि न तदानीं भो वायु न च जज्ज्वाल पावकः स्वस्य सुलोकेभ्य इति जल्पुष्टे महर्षयः सप्ते तुष्टात्र सन्तप्ता गन्धर्वासः चारणे अथ राक्षससिंहस्य कृष्णान् कनकभूषणान् शरय चतुर्भीतो मित्री विव्याध चतुहयान् तोपरेण भल्लेन पीतेन निशितेन च सम्पूर्णा मुक्तेन सुपत्रेण सुवर्चसा महेन्द्राश निकल्पेन सुतस्य विचरिषतः स तेन बाणाशनिना सरशब्दानुनादिना लाघवास राघवः श्रीमान् शिरका स्वयन्तरि महातेजा हते मन्दोदरी सुतः स्वयं सारथ्यमकरोत् पुनश्च धनुर्पृशेत् तदद्भुतम् बभूत् तत्र सागथ्यम् पश्यताम् युधि हयेषु व्यग्रास्तं तम् दिव्याध निशितैश्चरे धनुष्यथ पुनर्व्यग्रम् हयेषु मुमुचे शरान् चिदेषु तेषु विचरन् तन् अभीतवेत् अर्पयामास समरे सौमित्री शीघ्रकृत्तमः निहतम् सारथिम् दृष्ट्वा समरे रावणात्मज प्रजहो समरोद्धर्षम् पिषण्ड स बभूवः पिषण्ड वदनम् दृष्ट्वा राक्षसम् हरियुथपः ततः परम समुरुष्टा लक्ष्मणम् चाभ्य पूजयन् ततः प्रमासीरभसः शरभगन्धमादनः अमृषमाणा चक्रुर्वेगम चक्रुर्वेगम् हरिक ते चास्य हयमुखेषु तूर्णमुत्पत्य वानरः चतुर्षु सुमहावीर्यपेतुर्भीमविक्रमः ते चामधिष्ठिता वानरै पर्वतो ममै मुखेभ्योर्धिरं हया नाम समवर्तत ते हया मथिता भग्ना व्यसवो धरणीं गता ते निहत्य हयान्तस्य प्रमथ्य च महारथम् पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः सहताश्वादवक्लुत्य रथान्मथितसारथि शर्वक्षेण सौमित्रिम् अभ्यधावत रामणिः ततो महेन्द्र प्रतिमाम् च लक्ष्मण वदाति न्यतै हयतमैन्दमाजो निहिताञ्च रोतमान् वृषम् तदा बाणगणैर्व्यदालयन् इत्याध्येय मद्रामायणे वाकीयाधिकारे युद्धकाण्डे एकोन नवतीतमः सर्ग श्रीसीतारामचन्द्रार्पणमस्तु